हरि ओम् श्री सीतारामचन्द्राभ्यां नमः अथ श्रीमद ध्यात्मरामायणे युद्धकाण्डे पञ्चम स्वर्ग श्रीमहादेव उवाच श्रुत्वाक्यं मज्ञाननाशनं रावण सुदुर्बुद्धे गुरुवै कथम् शासितां ते जगतां शिक्षन्न लज्जसे इदानिम् हन्मी त्वां किन्तु पूर्वकुतं तव स्मरामि तेन रक्षामि तं यद्यपितम् इतो गच्छ विमोढत्तम् एवं श्रोतुं न मैक्षमम् महाप्रसाद इत्युक्त्वा वेपमानो गृहं ब्रह्मिष्ठो ब्रह्म वित्तमः विधानेन वने तिष्ठन् स कर्म करोत् देवानामभिवृद्ध्यर्थम् विनाशाय सुरद्विषाम् चकार विततिम् अविच्छिन्नाम् महामतिः राक्षसानां विरोधो भूत् शुको देव हितोद्यतः वज्रदंस इति ख्यात तत्रैको राक्षसोमः अनन्तरं पृथ्व रातिष्ठत् शुकापकरुणोद्यतः कदाचिदागतो गत्य तस्याश्रमपदं मुने तेन सम्पूजितोगस्त्यो भोजनार्थं निमन्त्रितः निदे मनोकुम्भे सम्भवे प्राप्य चान्तरम् तगश्च रूपधृक्षोऽपि राक्षस शुकमब्रवीत् यदि दास्यासि यदि दास्यसि मे ब्रह्मन् भोजनं देहितामिषम् बहुकालं भुक्तं मे मासं छागाङ्गसंभवम् तथेति कारयामास मासभोजं सविस्तरम् उपविष्टे मनोभक्तुम् राक्षसोऽ सुन्दरं शुकभार्यां चान्त सुपक्वं बहुविस्तरम् देवान्त ततो दृष्ट्वा चुकोपस अमेध्यं मानुषं मासम् अगत्य शुकमब्रवी अभक्ष्यं मानुषं मांसम् दत्तवानसि दुर्मते मह्यं तं राक्षसो भूत्वा तिष्ठत्तम् अनुशासनः इति शब्द शुको भीत्या प्रहागस्य मुनेतया इदानीं भाषितं भेद्य मासं देहिति विस्तरम् तथैव दत्तम् भो देव किम्बे शापं श्रुत्वा शुकस्य वचनम् ूर्तम् ध्यानमास्थितः ज्ञात्वा रक्ष कृतं सर्वम् ततः प्राहे शुकं सुधि राक्षसेन कृतम् इदम् विचार्यैव मे दत्त शापस्ते मुनिसत्तमः तथापि मे वचो मोघम् एवम् एव भविष्यति राक्षसम् वपुरास्थाय रावणस्य साहाय्यकरो तिष्ठ तावद्य रामो दशा नवधायि आगामिषति लङ्काया समीपम् वानरै सह प्रेषितो रावणेन तम् चारुभूत्वा रघुत्तमम् दृष्ट्वा शापाद् च रावणम् तत्त्वज्ञानम् ततो मुक्तः परम्पदम् अवाप्स्यसि इत्यप्रयोगस्य मनिना ्राह्मण सप्तमः भगव राक्षसो रावणं प्राप्य संस्थितः इदानीं चाररूपेण दृष्ट्वा रामम् सहनुजम् रावणं तत्त्वविज्ञानम् बोधयित्वा पुनर्धुतम् पूर्ववद्ब्राह्मणो भूत्वा स्थितो वैखानसै सः तथा माल्यवान्क्षसो मह बुद्धिमान नीतिपु राजो मात प्रियता प्रम्क्षसं वीरम प्रशां नातरात्म शुणु राज्य शुवा कूरो यथेद यदा प्रवेशा नगरी जानकी राम वल्लभ तदापुया दृश्य निमित्ता घोराणि नाचहेतूनि तानि मे वदत शृणु निर्गोचा निर्गोषा मेघति भयङ्करा शोणिते नाभिवर्षन्ति मुष्णेन सर्वदा रुदन्ति देवलिङ्गानि सिद्ध्यन्ति प्रचलन्ति च कालिका पाण्डुरे दन्तै त्रस्यग्रतस्थिता खरा गोषु प्रजायन्ते मूषका न कुलैतः माजारेण तु युध्यन्ति पन्नडेन तु करालो विकटो मुण्ड पुरुष कृष्णपिङ्गलः करालो गृहाणि सर्वेषां काले काले त्ववीक्षते एतान्य दृश्यन्ते निमित्तान्यद्भवन्ति च अनकुलस्य रक्षार्थं शान्तिं कुरुदशान सीतां सकृत्य सदनाम् रामायाशु प्रयच्छ भ रामं नारायणं विद्धि विद्वेषं त्यज राघवे यत्पादपोतमाश्रित्य ज्ञानिनो भव सागरं तरन्ति भक्तिपूतान्त ततो रामो न मानुषः भजस्व भक्तिभावेन रामं सर्व हृदालयम् यद्यपि तं दुराचारो भक्त्या पूतो भविष्यसि मद्वाक्यं कुरु राजेन्द्र कुलकौशलहेतवे तत्यु तत्तु माल्यवतो वाक्यम् हितमुक्तम् दशाननः न मर्शयति दुष्टात्मा कालस्य वशमागतः माधवम् कृपणं रामम् एकं शाखा मृगाश्रयम् समर्थं मन्यसेकेन हीनं पित्रा मुनिप्रियं क्रमेण प्रेरितो नूनं भाषते तं नरगलं गच्छ वृद्धोऽसि बन्धुत्वं सोढं सर्वं प्रयोदितम् इतो मत्कर्णपदवीं इत, इत धेतव इत्युक्त्वा सर्वसचिवैः सहित प्रस्थितस्तदा प्रासादाग्रे पश्यन् वा नरसैनिकान् युद्धाय आयोजयत् सर्व राक्षसान्थितान् रामोऽपि लक्ष्मणेन समाहृतम् दृष्ट्वा कोपेन कलुषी किरीटीनं किरीटीनम् समासेन मन्त्रिभिः परिवेटितम् शशाङ्कार्ध बाणेनैकेन राघवे श्वेतच्छत्र सहस्राणि किरीटदशकं तथा चिच्छेदन विषार्थेन तदद्भुतं विवा भवेत् लज्जितो रावण सुवर्णं निवेश भवनं सकं, आहूय राक्षसान् सर्वान् प्रत प्रमुखान् खल वानरैः सह युद्धाय नोदयामास सत्र ततो भेरी मृदङ्गाद्यै पणवानक गोमुखै मयिषोष्टैः खरैः सिंहै दीपीभिः कृतवाहनः खड्गशूल धनुष्पाश यष्टितोमरशक्तिभिः दक्षिताः सर्वतोलङ्कां प्रतिद्वारम्बपायुः तत्पूर्वमेव रामेण नोदिता वानदर्श भ उद्यम्य गिरिशृङ्गाणि शिखराणि महान्ति च तनुचोत्पाटद्विविधान् युद्धाय हरियुत्थपा प्रेक्षमाणः रावणस्य चान्यनेकानि भाग च राघवे प्रियकामार्थं लङ्कामारुरुहस्तदा ते द्रुवयि पर्वताग्रहश्च मुष्टिभिश्च प्रवङ्गमः कोटियुथा च यूथपः कोटिशतयुधा चा चान्ये रुरुध नगरं भृशम् आप्नुवन्त प्रवन्तश्च गर्जन्तश्च प्रवङ्गमः रामो जयत्यतिवरो लक्ष्मणश्च महाबलः राजा जयति सुग्रीवो राघवेणानुपालितः इत्येवं घोषयन्तश्च समं यो हनुमानगदश्चैव कुमदो नील एव च नरश्च शरभश्चैव बैन्दो द्विविधैव च जाम्बवान् केसरी तार एव च अन्ये च बलिनः सर्वे यूथपाश्च पर्वताग्रैच वानोस्तासी न खैदंत चेगिता राक्षसा चे द्वारभ्यतोषाय जगत पाला खड़गे शोल पर जनरनेहा महाबल राक्षसा चा जनौ वानर जित कदा बभूव समरो मास शोणितकर्दमः रक्षसां वा नराणां च सम्भूवाद्भुतो भूतोपमः ते हये च गजय चैव रथैकाञ्चन सन्निभै रक्षो व्याघ्रायुधिरे नादयन्तो दिशो दश राक्षसा परस्पर जयशिणः राक्षसान् वानरा जग्नौ वानरां चैव राक्षसः रामेण विष्णुना धृष्टा हरि ओ दिविजाभूर्बलिनो दृष्टा तदा पितामृता इव सीताभिमर्श पापेन रावणेनाभि पालितान् हतश्रीकान् हत बलान् राक्षसान् जग्नो चतुर्थावशेषेण नियतं राक्षसम्बलम् स्वसैन्यं नितं दृष्ट्वा मेघनादोऽ ब्रह्मा दत्तवर श्रीमान् अन, अन, अन्तर्धानं गतो सुरः सर्वाश्रये कुशलो व्युम्नि ब्रह्माश्रेण समन्ततः नानाविधानि शस्त्राणि वनरानेकमर्दयन् शरजारान्नि तदद्भूतं विव भवेत् प्रमोऽपि मानय ब्राह्म अस्त्रम् अस्त्रविदाम्बरः क्षणं तूष्णीं वासाथे ददर्शे पतितं बलं वानराणां रघुश्रेष्ठ चुगोपानलसन्निभे चापमानय सौमित्रे ब्रह्मा ब्रह्माश्रेणासुरं क्षणात् भस्मीकरोति मे पश्य वरमद्य रघुत्तमः मेघनादोऽपि तत् श्रुत्वा रामवाक्यमतन्द्रितः पूर्णं जगामनगरम् मायया मायिकोसुरः पतितं वा नरानेकं दृष्ट्वा रामोति दुःखितः उवाच मार्तिं शीघ्रं गत्वा क्षीरमहोदधिम् तत्र द्रोणगिरि नाम दिव्यौषाधिसमुद्भव सम्मानाय द्रुतम् गत्वा संजीवाय महामते वानरोघान् महासत्वान्ते सुस्थिरा भवेत् आज्ञाप्रमाणमित्युक्त्वा जगामा निलनन्दनः आनीय च अग्निं सर्वान् वानरान् वानर शभय जीवयित्वा पुनस्तत् पुरवद्भैरवं वा नारम् वानराणां बलघट कृत्वा विस्मयमापन्नो रावणो वाक्यमब्रवीत् राघवो मे महान् शत्रु प्राप्तो देव विनिर्मितः हन्तुं तं स्मरे शीघ्रं गच्छन्तु मम यूथपः मन्त्रिणो बान्धवा शूर ये सर्वे गच्छन्तु युद्धाय रितं मम शासनात् येन गच्छन्ति युद्धाय भीरवय प्रणविप्लवात् तेच्छाम्यं सर्वान् मच्छासना पराङ्मुखान् तच्छ्रुत्वा भयतन्द्रता निर्जग्मोरणकोविदः अतिकाय प्रकृतश्च महानाद दे महोदरौ देवशत्रु निकुम्भश्च देवान्तकनरान्तगौ अपरे बलिन सर्वे वानरे एते चान्ये च भवे शूरश्च सहस्रश प्रविश्य वानरं सैन्यम् मम बलदर्पिताः भुषुण्डीभि निर्वालैश्च बाणै खड्गे परेश्वरे अन्ये च विविधै अस्त्रे निजग्नु हरियुत्थपान् ते पादपै पर्वताग्रि नखदं श्री च मुष्टिभिः प्राणिर्विमोचयामासु सर्वराक्षसयूतपा रामेण नेता केचित् सुग्रीवेण तदा परे हनुमता चाङ्गलेन लक्ष्मणेन महात्मनः यूथपै वानराणां ते नियताः सर्वराक्षसः रामतेज समाविश्य वानराय बलिनो भवन् सर्वशक्ति वीनाम् एवं शक्ति कुतो भवेत् सर्वेश्वर सर्वमयो विधाता माया मनुष्यत्वविलम्बनेन सदाचिदानन्दमयोऽपि रामो युद्धादिलीलां विनोति मायाम् इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे पञ्चम स्वर्गे